वाचा वैशम्पायिनौ वाच ततस्तु ते पुण्यतमां शिवांशुभाम् महर्षि गन्धर्वनिषे वितोदका त्रिलोककान्तामवतीर्यजाह्नवीम् श्रीञ्च देवाञ्च चा पित्रो न तर्पयन् वरप्रदानम् ह्यरिचिन्त्य पार्थिवो हुताज्ञ होत्र कृतजप्य मङ्गलः दिशम् तथैन्द्रीमभित प्रपेदिवान् कृताञ्जलिर्धर्ममुपाह्वयच्छनैः युधिष्ठिरौ उवाच वरप्रदानम् अवदत्तवान् पिता प्रसन्नचेता वरद प्रजापतिः जलास्थिनो मे प्रयुक्ता विविशो निपातिता यक्ष वरेण ते वेमहा हवे वज्रभृतेव दानत्वा वरदोऽभिदोषितो विवक्षता प्रश्न समुच्चयम् गुरुः समे प्रसन्नो भगवान् वरम् ददौ परिष्वजंश्चाह तथैव सौहृदात् वृणीष्व यद्वाञ्छसि पाण्डुनन्दना स्थितोन्तरिक्षेऽवदोऽस्मि पश्यता स वै म योक्तो वरदप्पिता प्रभोः सदैव मे धर्मरता मतिर्भवेत् इमे च जीवन्तु ममानुजा प्रभो व च बलम् तथाप्नुयुः क्षमा च कीर्तिश्च यथेष्टतो भवेद्व्रतञ्च सत्यञ्च समाप्तिरेव च वरो ममैषोऽस्तु यथानुकीर्तितो न तन् वरो यदब्रवीत् वैशंपायन उवाच इत्येवमुक्त्वा धर्मात्मा धर्ममेवानुचिन्तयन् तदैव तत्प्रसादेन रूपमेवाभजत् स्वकम् सवैति जातिस्तरुणस्ति दण्डधृक्कमण्ड रोष्णीश धरोन्नजायत सुरक्तमाञ्जिष्टवराम्बरः शिखी पवित्रपाणिर्दृशे तदद्भुतम् तथैव तेषामपि धर्मचारिणाम् यथेप्सिताख्यावरणम् वरः क्षणेन राजन अभवन् महात्मनाम् प्रठस्त धर्माग्र्य फलाभिकाङ्क्षिणाम्